ओ ध्यायामो ो ध्यायामोधवलापकुण्ठनपतीम् तेषोमयीं नैष्टिकीं स्निग्धापाङ्गविलोहिनीं भगवतीं मन्दस्मिदशमुक्तिः वात्सल्यामृतपत्नीम् सुमधुरम् सङ्कीर्तनालापिनी ्यामाङ्गीम् मधुसिक्तसूक्तिम् अमृतानन्दात्मिकाम् ईश्वरिषु ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ॐ गणाम् त्वा गणपतिबंहवामहे कविमुखवीनाम्भतमम् ेष्ठराजम् ब्रह्मणाम्पदशृण्वन् नूदिभिः सिदसादनम् ॐ श्रीमहागणपतये नमः प्रणो देवी सरस्वती वाजे धीनाम धीनामविद्र्यवतु वाग्देव्यै नमः one second let me connect the power i think my i'm running out of power just a second okay <laughs> back sorry about that let me switch in the power for it okay let us together chant the sisuktam from the beginning till vinde yam purushanaham then after that is padmapriye padmini padmahaste padmalaya padmadalaya takshna okay the only confusion will be we would say ardram eh karanim yestim tinkalam padma malinim chandram bhiranmayim lakshmim jadavedo mavah Ardram Puskarinim Pushtim Suvarnaam Yimam Malinim Suryam Hiranma Imraqsham Jadagadam Avaam Okay, so in your book which is there, just uh, make a note or it will come there. Okay, we'll do it twice together. Ready? Okay. One, two, three. Okay. Om Hiranyavar NAM Harinim Suvarna Vajadasrajaam Chandraam ताम यस्याम् हिरण्यम् बिन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमद्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम् कां सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्नि तर्पयन्ती पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीयम् लोके जुष्टामुत् अहम् प्रपद्यलक्ष्मीर्नेनश्यताम् वृणे आदित्यवर्णेतपसोऽधिजातो वनस्पतिस्तवृक्षोथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च भाग्यालक्ष्मीभिः वैतुमाम् देवसखः कीर्तिश्च मणिनासः प्राधुर्भूतोऽस्मिराश्रिऽस्मिन् कीर्तिमृद्धिम् ददातु मे हृत्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाचयाम्यहम् अभूदिमसमृद्धिम् च सर्वान्नुर्नुद मे गृहात् बन्धद्वाराम् धुरादर्शाम् नित्यपुषिताम् करीषिणी एषुगुम् सर्वभूतानाम् तामिहोपग्वयेष्णी मनसः काममाकोदिम्वाचः सत्यमधीमहि पशूनाम् रूपमन्नश्च महि श्रीश्रयताम् यशः कर्दमेन प्रजाभूता मयि भवलिनी आभस्त्रि चन्दुसिद्धानि चिक्लितवस मे गृहे निज देवी मादरगुं श्रियं वासय मे कुले आर्द्रां यकरिणीं सृष्टिं शिङ्गलां पद्ममालिनीम् द्राम् पुष्कर्णीम् पुष्टिं सुवर्णां हेममालिनीम् सूर्याम् हिरण्मयीं लक्ष्मीं जादवेदो महावहताम् आवह जादवेदो लक्ष्मीम् मनपगामिनी िरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्धेयम् पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलाय दाक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपानिधत्स्व So let's do one more time together, okay? Then there will be a second practice and then we'll learn the newer part, okay? Ready? So at this time I might be so silent in some places because I just want to hear some other people chanting. I don't know, I couldn't hear most people last time. So I don't know whether people are on mute or... But, okay, so let's start. Ready? One, two, three. Okay. ताम पुरुषा नहम् हस्ति नाद्रोहिनी श्रियं देवीये श्रीर्वा देवीर्जुषताम् कां पिता हिरण्यव्याकारायान्तां ज्वरन्ति लोके ताम रणमहम् प्रपद्रवे नश्यताम् नुदन्तु भाष्यालक्ष्मीः उपैतो सगकीर्तिश्च मणिना स्था ृदम् ददातु मेलामलश्चीन्नाशयाम्यहम् पूरिमसमृद्ध सर्वान् ग्रहाद्वारा सर्वीमयी पशूनां रूप्तां यत् निषदेवी मादरगुण श्रियं वा रणीम् यष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् आवः आद्राम् पुष्टिम्नाम् हेममालिनीम् सूर्याम् सुरण्यीम् लक्ष्मीम् जागवेदोम आवहा मिनी यस्यां प्रकृदं ल्टि एस्टन् ओके सो नू वुड् इन् द सि डि आल्सो दिङ्ग् ऐ स्कन् दे स्टा रे विन्दे पुरुषान् अहम् ओके आफ़्टर् द they don't say anything but uh, we say padma priya priya mano mano anugule okay ah uh, tadpat vasu mai sanedatva and after that the last thing is the last paragraph in mantra pushpan which is page 406 which is sri jajad sri aniryay okay thank okay. okay. you i don't Do the last paragraph will be there no no yeah, i don't know uh, mantra pushpan Yes. Okay. I have a lot more, but I just don't know. I don't have... A lot of the things that after that we skip, okay? Yeah, okay. Oh, Sri... Sri... Is that what it is? Sri Vachas Samayoshi Marodhya Mahavitha. Is that it? No, no, no. Okay. It is... Uh, लास्ट् टै्टर् द्रिय There is a lot more, but we don't do yeah, it yeah. like I that. Yeah, we want to speak all that stuff, and that this is the only thing we have to speak. A okay? mm -hmm. well, lot yeah. of the other ones are from other places also. Sarasim, Lea, Saro, Jahas, Teh, all that stuff is a uh, lot of this uh, Lakshmi's uh, slokas, it comes. So. Okay. So the last is the part we say, that is because uh, in, in Ashram they say this. Okay. Okay. If we studied it, we stopped wherever. Padma Priya, Padma. but we are just stopped didn't even do anything after that but i asked from there seems just change the last part bye so we we'll let us learn that i'll say once you guys please see eh jata syah aniryay sri eh jata syah aniryay sri eh jatasya aniryay ah श्रिये चाद श्रिय आनिर्याय श्रियं वयोजनितृभ्यो दधातु श्रो श्रियं अमृतो भजति भजन, भजन, भजन्ति राज right? इत्या hmm. भीडोल् श्रियं वसाना अमृत श्रियं Okay, that line? Yeah. Okay. Shriya evainam tachriyama dhadhati Shriya. Shriya, e Shriya. Shriya evainam tachriyama dhadhati Shriya evainam tachriyama dhadhati Shriya evainam दधाति श्रधाति बुक्स् ओके श्रिय एव तत् श्रिया मा दधाति श्रिय श्रिय एव तत् श्रियामा दधाति ृजावषट्कृत्यं संधत्तं दत्तं सन्ततमृजावषक्षं सं शुभिः प्रजया पशुभिः ओकेबड् इस् ओके विड् विल्डु दोल्ड् लैन् सन्ततमृजा वषत्कृत्यं सन्धत्थं सन्धीयते प्रजया पशुभिः मृजा वषत्कृत्य प्रजया पशुभिः पशुभिः सन्ततमृदमृज सन्धत्तं प्रजया पशुभिः ओके दत् लै महादेवै च विद्महे विष्णुपत्नी च धीमहि ॐ महादेवै च धीमहि तन्नो यात्मी प्रचोदयात् विस्ट् टु लैन् मोर् वन्स् रिट ट्वास् महादेवै च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ महादेव्यै च विद्महे विष्णुपत्म्य होल् oh, पेरा maha श्रिये जादश्रिय आनिर्याय श्रियं वयो जनित्रिभ्यो दधातु श्रियं वसानामृतत्वमायन्वजन्ति सद्यः सवितापिधद्योन् श्रिय एवैनं तच्छ्रियामाधतादि सन्ततमृचावषट्कृत्यं सन्धत्तं सन्धीयते प्रजया पशुभिः स एवं वेद हादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः शान्ति श्रिये चातश्रिय श्रियम् अमृतत्वमायन् भजन्ति दद्यून् श्रिय एव सन्दीयते प्रजया पशुः ॐ महादेवे च विद्महे विष्णुपत्मीयात् ॐ शान्त शान्तशान्ति श्रिये जातश्रिय श्रिय अनित्याय श्रियं वयो जनितम् ो ददातु श्रियं कविता विदद्यून् सन्धि प्रजया पशुभिः एवं वेदा च भीमस्ति प्रचोदयादीम् नम ओके सो देन यू विल ट्राई इंडिविजुअली सो हु वांट्स टू ट्राई इट ऑन देयर ओन ओके गो अहेड श्रीय जातश्रीया आनव्याया श्रीयम् वन्नो जनित्यर्जनित्यस्य प्योदतास्तु हियम् कुनम निर्वत्किनी दन्ति सत्यसंभावितुन ैनं तच्छ्रिया मादता सन्ततमृचावषट्कृत्य सन्ततमृचावषट्कृत्यं संधत्तं सन्धीयापशुभिः य एवं वेदा ॐ महादेव्ये च विद्महे विष्णुपत्नी च धीमहि या ओम् इस् दीर्घा विसर्ग बै पकारो लक्ष्मी प्रचोदयात्मी प्रचोदयात् ओके निर्याय श्रियं वयोजनित्रिभ्यो ददातु श्रियं वसाना अमृतत्वमायन् भजन्ति सत्यः सविता विदध्यून् श्रिय एव संसत न चावशत् संहृतं सन्धीयते प्रजया पशुभिः य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तं नो लक्ष्मीः प्रचोदयात् ॐ शान्तिश्शान्तिः शान्त शान्त शान्त श्रियेत श्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु दधातु श्रियं वसानामृतत्वमायन् भजन्ति भजन्ति सद्यः सविताविदध्यून श्रिय एवम् तत् सन्ततमृजावषत्कृत्यम् सन्धत्तम् सन्धीयते प्रयया पशुभिः वेद य एवम् वेद ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् Very good. I can go next, okay, go next, Okay, ahead. य श्रियं वयोजनितृभ्यो ददातु श्रियं वसाना अमृतत्वमायन् भजन्तिून् श्रिय एैनम् त्रियां सन्दत्वं सन्धि सन्दीयते प्रजया पशुभिः य एवं वेदा ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो लट् स्यात् ॐ शान्ति शान्ति शान्तिः श्रियानिज्ञाय श्रियं वयो जनिदृभ्यो ददातु श्रियं वसानामृदत्वमायन् भजन्ति सद्यः सविता Tachriya maa... Dedhadi. No, no. Tachriya maa... Tachriya maa... Tachriya maa... Very good. I don't, I don't have no yaa, just Tachriya. <coughs> We have dhirkaam there, huh? Yeah. Tachriya maa dhatadi. Dhirkaam both places. Tachriya maa. Both are dhirka. Okay. Santada... कृत्यं संधत्तं सन्धीयते प्रजया पशुभिः य एवं वेद ॐ महादेवे विष्णुपत्नी जीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति शान्ति शान्तिः श्रिये जात श्रिय आ निर्याय श्रियं वयो जनितृभ्यो दधातु श्रियं वसाना अमृतत्वमायन् भजन्ति सद्यः सपिता विदध्युना श्रिय एव तच्छ्रियामादधाति सन्ततमृचावषत्कृत्यं सन्धत्तं सन्धीयते प्रजया पशुभिः य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि Om Very good. is is is is okay with this this this this now, right? Yeah. So this is the see, Suktam, this is the Sri Suktam, end of it. chanted so, um, for श्रीसूक्तम् uh, aus, you know, aus, auspiciousness. It's supposed to bring us good um, health, wealth, and happiness. Okay. Yeah, most of the chanting, I don't know the Say meaning. Say that again? Huh? Most of the chanting, I don't know the meaning of the Sanskrit word. Yeah, the thing is, this Sanskrit is a little older one also. This is more... Uh, pre-date to samskudam itself so this is a little bit different and the grammar is also not the same as what we know nowadays it's a the way, the way we learn is a little bit different as so it's like learning Shakespeare English and today's English right like if you read uh, Harry Potter or something in English it's completely different from the Shakespeare in English that's similar here also a lot of these are like uh, Vedic and Upanishad the language so it's a little bit uh, different from samskudam as well yeah. mm hmm Mm hm what it's uh, more so than the thing if you look at the um, the vibrations it create it's the same it it should bring peace and happiness that's the way it, it should work whether you understand the meaning or not so it should be like a song right so no I matter mean, the time when you hear the song you not know, you you can figure out what the emotion you have this doesn't, doesn't matter what language the song is what they're saying what the meaning is So So shall we We learn the the the little bit today? We have have uh, have some time. Yeah. Okay. okay. So all of you have the text. If in a, uh, Bhushma, it's the next page. I have it सो शाल् बी लर् बूसूक्ष्म ओम् भूमिर् ॐ भूमिर्भूम् नाचः ॐ भूमिर्भूम् नाद्यौर्वरिणान्तरिक्षं महित्वा ओ Mirbuna, o o the, location, the line? ला नेक्स् उपस्थेते उपस्थेते उपस्थे देव्यदिते देव्यदिते अग्निमन्नादेव्यदिते अग्निमन्नाद ग्निमन्नादमन्नाध्यायाधते देव्यदि अग्निमन्यादमन्नाधन्यादधिते अग्निमन्नादमन्नाद्यायादधि Are the words okay for everybody? Yeah. Yes. Okay. The whole line. Upas the te devyadi te gni manna da manna dhyaya dhyaya dhyaya. स्माल् श् आल्मोस्ट् इर्सेटबल् गो देव्य ओके डोन्नाथ इस् करेक्ट् इोट् दुड् से दि अकार ओके Okay. the kuruvadu pasanti so the only the a will stay and akara will go okay <fumúdethirds> de dyadite -de devyadite gnimannada okay so de dite -di you can pull it a little bit you can extend mm -hmm. it and then that a gets okay. swallowed by that okay devyadite -de gnimannada mannadyadade okay deeva padi dekne nimanna anda kyaa yaad le bhakti yaadat ee yadi ko disanna okay for everybody jaa yeah. okay next line aayam gof pristi rakrami aayam gof Oh shit. Era crampy. Ah, yeah. Go go. This me. That crampy. Dasanannmadaram punaha. Dasanannmadaram punaha. Dasanannmadaram. Okay, for the words? Yeah. Yeah. Yeah. पितरम् च प्रयन्सु वः ittadan peter and chaprayan swaha peter and chaprayan swaha okay yes it yes. seems like this is a little bit difficult than there are other ones <laughs> <laughs> we learned it but i just not get we learned but it's once you don't practice it this goes right that's the problem right see Out of sight, out of mind kind of thing. So that's why we have to keep practicing it. So that's why Rudram, you did it so many times and only we can now get it a little bit, correct? Mm -hmm. nice. so yeah, that's it. We haven't spent that much time practicing these things, that's all. So we have to uh, go back and after this thing, we'll start practicing these also. It mm -hmm. becomes easier then. It's like a song. After you hear it for many times, you start to remember the words, right? So same thing here too. Mm-hmm. Yes. Yeah. Okay, I'll so we'll go to the next one. Trigum Shaddhama Virajati Trigum Shaddhama Virajati Virajati Trigum Shaddhama Virajati Trigum Shaddhama Virajati वाक्पदङ्काय शिश्रियेश्रियेक्पदङ्काय त्रगं शद्धाम विराजति वाक्वाक्पदङ्काय शिश्रिये श्रिगं शद्धा त्रिगं शद्धाम विराजदिराय श्रिये ओके दर्शन्स् प्रत्यस्य वहद्युभिः प्रत्यस्य वहद्युभिः प्रत्यस्य वहद्युभिः ट्रै टु लर्न् देल् बिगिनिङ्ग् टिल् देर् वन्स् यु रिस् इण्डिविजुलि ओम् भूमिर्भूम् नाद्योर्वन्तरिक्षं महित्वा उपस्थेते देव्यतिमन्नादमन्नाद्यायाधे यङ्गौः पृश्निरक्रमेतसनन्मातरम् पुनः पितरम् च प्रयन्सुवः तृगुंसद्धाम विराजति वाक्पथङ्कायशुश्रिये प्रत्यस्य वहद्युभिः उपस्थिमन्नाध्याया दधे आयंकौ कृष्णेरभितरञ्ज प्रयन्तु वः त्रिपक्षतु नाम विराजति वा गङ्गाय सिष्टे ुभिः ॐ होमेर्भूत्वा उपमीना आज्ञा प्रोष्टि याScriptName तथा नरम पूना पिंतरेन प्रियवाह त्रिनुक्षा धाम विराजते वा पदंगायसि श्रीये प्रत्यस्य अहति हि खरबड़ीस ओके हां Okay, so um, let's just practice individually. Who wants to go first? I can go. Okay, go ahead. Om Bhomir Bhom Nathya Urvarinanta Riksham Mahitva उपस्थेते देव्यदिते निमन्नादमन्नाध्यायादधे आयङ्गौः पृष्णिरक्रमीदसनन्मातरम् पुनः पितरम् च प्रयन्सु अः त्रिगुंषद्धामविराजति वाक्पदङ्गाय शिश्रिये प्रत्यस्य वहध्युभिः ूम्यात्यौर्वन्तरिक्षं महित्वा उपस्थेते देव्यदितेऽनिमन्ना दमन्यात्याया दथे आयं लो प्रस्निरक्रमी दद दशरन्मादरं पुनः वितरं च प्रयंसुवः श्रीदं श्रद्धामविदं यति वाक्पदं गायसि श्रिये ततस्य वह तुभिः वेरी गुड मेक श्योर आयंगौफ प्रष्टनिअक्रमे ओके आयंगौफ इट कम्स एन एफ साउंड बिकॉज़ विसर्ग ऑफ प्रॉड बाय अ पकारा ओके ओके गुड आयंगौफ प्रष्टनिअक्रमे आयंगौफ Yes. Yeah. Okay. Good. Who wants to go go go next? next. I can Okay, first. Om दौर्वरिणान्दरीक्षं महित्वा उपस्ते देव्ये निमन्ना Aayam आयम् कृष्णिरक्रमि दशनन्मातरम् पुनः कृष्णिरक्रमी दशनन्मातरम् पुनः पितरम् च प्रियं सुः ऋगुम् शब्दाम विराजति वाक्पगङ्गायसि श्रिये ॐ भूमिर्भूम् नाद्यौर्वरिणान्तरिक्षं महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे आयङ्गौः पुनः पितरं प्रयन् धाम विरज विराजति वाक्पतण्डाय शिश्रिये प्रत्यस्य वहत्युभिः उत्तम ॐ भूमिर्भूम्ना I... uh, द्यौर्वरिणां दरिक्षं महित्वा ग्निमन्नादमन्नाद्याया दधे आयङ्गौश्निरक्रमीदश मातरं पुनः पितरं च स्पृ प्रयन्सु वः सृगं श्रद्धामविराज दीपाक्पदङ्गाय श्रिये प्रत्यस्य वःभिः लिबडिस् लडिस्न्यूमिर्भूम् नाद्योर्वन्तोर्भूम् वरिणान्तरिक्षं महित्वा उपस्थेते देव्यदिते अग्निमन्नादमन्नाध्यायादधे यङ्गौवृष्रक्रमी दशनन् मातरं च प्रयत्स्नुव इति तत्र सकारस्य क्लेशः अस्ति वक्तुं च प्रयन्थुवः द्धा विराजति वा वाक्पतङ्गाय प्रत्यस्य वः द्युभिः Let's do one thing, let's do the, uh, uh, the whatever we learned today two times together and then we can stop. I don't think we'll have time to go any more than a sentence anyway, right? So let's do the whole thing that Om Bhumir Bhumna till Pratyasav Haddi be together two times, okay? Ready? One, two, three. Om Bhumir Bhumna Dyor Vare Nata Rikram Mahitva -na उपस्थे दे दे दे दे ते देव्यति देग्निमन्नादमन्नाथयाधे आयम्मादरं पुनः च प्रयं विराज दीपाक्पदङ्कायशिश्रिये प्रत्यस्य वपद्युभिः भूमिर्भूमाद्यौर्वरिणान्तरिक्षं महित्वा उपस्थेते देव्यतिदेग्निमन्नादमन्नाद्यानिरक्रमेदशनन्मातरम् पुनः पितरं च प्रयन्थुवः ओके सो नेक्स्ट् वीक् इस् दर्ड् मण्डे और्ड् मण्डे रा Yeah, 7th was the first Monday, right? Then 14th to 2nd yeah. Monday today and 21st to 3rd Monday. So, so we will practice Rudram and Chamaadam next week. Okay. Okay. Right? So we will go back to our 3rd week uh, like before and then we will start continue with Bhusuktam after that. Okay. Yeah. And once we practice the Rudram a couple of more times, then we can go back to practice. Once we have learned all the Suksams, we will go back to practice the Suksams of uh, uh, Rudram and Chavagam. So essentially we will probably do Rudram and Chavagam every third thing, but other weeks we can practice the Suksams. Okay. We will also have good practice for these Suksams as well. Because there are many suktams, right? We did Ganabhadi Adhara Srisham, we did Kuru uh, suktam, Sri suktam, mm -hmm. Narayan suktam, Rishnu suktam, all that stuff. Now we are learning new suktams, so I should say we should have some practice for them, so when we learn all those things, we will practice those. Okay, any questions? Okay, then rest two, three, Loka, Samastha, Hansh talk for the day. खिनो भवन्तुस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु ॐ शान्तिश्शान्तिः ॐ श्रीगुरुभ्यो नमः हरिः ओ